शशापत्तञ्च संक्रुद्धो बीभत्सुर्जिह्मगामिनम् पावको वासुदेवश्चाप्यप्रतिष्ठो भविष्यसि ततो जिष्णुः सहस्राक्षं खं योधयामास संक्रुद्धो वञ्चनाम् तामनुस्मरन् देवराजो तम् दृष्ट्वा संरब्धम् समरेर्जुनम् स्वमस्त्रमसृजत् तीव्रम् छादयित्वाखिलम् नभः ततो वायुर्महाघोषः क्षोभयन् सर्वसागरान् वियत्स्थो जनयन् ततो शनिमुचो घोराम् स्थित्स्तनितनिःस्वनान् तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् वायव्यमभिमन्त्र्याथ प्रतिपत्तिविशारदः तेनेन्द्राशनि मेघानाम् वीर्यौजस्तद्विनाशितम् जलधाराश्च ताः सोषम् विद्युतः क्षणेन चाभवद्व्योम सम्प्रशान्तरजस्तमः सुखशीतानि लवहम् निष्प्रतीकारहृष्टश्च हुतभुग्